श्रीमन श्रीमन्महाभारतम् आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयस्त्रिंशो अध्यायः सौ तिरुवाच जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः प्रविवेशबलात्पक्षीवारिवेगैवार्णवं सचक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके परिभ्रमन्तमनिषं तीक्ष्णधारमयस्मयम् ज्वलनाकप्रभं घोरं छेदनं सो महारिणां घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितं तस्यान्तरं स पर्यवर्तत खेचरः अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेनः अधश्चक्रस्य चैवात्र दीता नलसमद्युती विद्युज्जिह्वौ महावीर्यौ दीतास्यौ दीप्तलोचनौ रक्षार्थमेवामृतस्य तदशभुजगोत्तमौ सदा संरब्धनयनौ सदा भवेत् तयोश्चक्षूंषि रजसात् सुपर्नः सहसा वृणोत् ताभ्यामदृष्टरूपोऽसौ सर्वत् समताडयत् रंगे समाक्रम्य वैनतेयोऽन्तरिक्षगः आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली उत्पपातजवेनैव यन्त्रमुन्मथ्यवीर्यवान् अपि त्वैवामृतं पक्षी परिगुह्याशु निःसृतः आगच्छदपरिश्रान्त आवार्यार्कप्रभान्ततः विष्णुना च तदाकाशे वैनतेयः समेहिवान् तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरं सवव्रेतवतिष्ठेयमुपरीत्यन्तरिक्षगः उवाचैनं नारायणमिदं वचः अजरश्चामरश्च विनाप्यहम् एवमस्विति तम् विष्णुरुवाच विनता सुतम् प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् भवतेपि वरं दद्याम् वृणोतु भगवानपि तम् वव्रे वाहनम् विष्णुर्गरुमन्तम् महाबलं। ध्वजम् चक्रे भगवानुपरि स्थास्यसीति तम् एवमस्विति तम् खगः वव्राजतरसा वेगाद् तम् व्रजन्तम् खग श्रेष्ठम् ताडयत् हरन्तमृतम् रोषाद्गरुडम् पक्षिणाम् तमुवाचेन्द्रमाक्रन्दे गरुडःपततां वरः प्रहसंश्लक्ष्णयावाच तथा वज्रसमाहतः ऋषैर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवं वज्रस्य च करिष्यामि तवैव वचक्रतो येतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे न च वज्रनिपातेन रुजामेस्तीह काचन एवमुक्त्वा ततः पत्रमुत्ससर्जसपक्षिराट् तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् हृष्टानि सर्वभूतानि नाम चक्रुर्गरुत्मतः सुरूपम् भवत्विति तद्दृष्ट्वा महदाश्चर्यम् सहस्राक्षः पुरन्दरः खगो महदिदम्भूतमिति बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् सख्यम् चानन्तमिच्छामि त्वया सह इति श्रीमन्महाभारते आदिपर्वणि आस्तिकपर्वणि सौपर्णे त्रयस्त्रिंशोऽध्यायः